अथ षष्टितमः सर्गः तपो बलहताञ्ज्ञात्वा वासिष्ठान् स महोदया महातेजा विश्वामित्रोऽभ्यभाषत अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः धर्मिष्ठश्च पदान्यश्च माम् चैव शरणम् स्वेनानेन शरीरेण तथा प्रवर्त्यतान्यज्ञो भवद्भिश्च मया सह विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ऊचुः समेताः सहसा धर्मज्ञाधर्मसंहितम् अयम् कुशिकदायादो मुनिः परमकोपनः यदाह वचनम् सम्यगे न संशयः अग्निकल्पो हि भगवान् शापम् दास्यति रोषतः तस्मात् प्रवर्त्यतान्यज्ञः स शरीरो यथा दिवि गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा प्रवर्त्यतां प्रवर्त्यतान्यज्ञः सर्वे एव समधितिष्ठत एवमुक्त्वा महर्षयः सञ्जह्रस्ताः क्रियास्तदा याजकश्च महातेजा विश्वामित्रो भवत्क्रतौ ऋत्विजश्चानुपूर्येण मन्त्रवन्मन्त्रको विदाः चक्रुः सर्वाणि कर्माणि यथा कल्पन्यथाविधि ततः कालेन महता विश्वामित्रो महातपाः चकारावाहनम् तत्र भागार्थम् सर्वदेवताः नाभ्यागमम्स्तदा तत्र भागार्थम् सर्वदेवताः ततः कोपसमाविष्टो विश्वामित्रो महामुनिः श्रुममुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत् पश्यमे तपसौ वीर्यम् स्वार्जितस्य नरेश्वर एष त्वाम् स्वशरीरेण नया विस्वर्गमोऽजसा दुष्प्रापम् स्वशरीरेण स्वर्गम् गच्छ नरेश्वर स्वार्जितम् किञ्चिदप्यस्ति मया हितपसः फलम् राजम् स्वम् तेजसा तस्य सशरीरो दिवम् व्रजा उक्तवाक्ये मुनौ तस्मिन् स शरीरो नरेश्वरः दिवम् जगाम काकुत्स्थमुनीनाम् पश्यताम् तदा स्वर्गलोकम् गतम् दृष्ट्वा त्रिशङ्कुम् पाकशासनः सः सर्वैः सुरगणैरिदम् वचनमब्रवीत् त्रिशङ्को गच्छ भूयस्त्वम् नासि स्वर्गकृतालयः गुरुशापहतो मूढपतभूमिमवाक्षिराः एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत्पुनः विक्रोशमानस्त्राहीति विश्वामित्रम् तपोधनम् तच्छ्रुत्वा वचनम् क्रोशमानस्य कौशिकः रोषमाहारयत्तीव्रम् तिष्ठतिष्ठेति चाब्रवीत् ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः सृजम् दक्षिणमार्गस्थान्सप्तर्षीनपरान्पुनः नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः दिशमास्थाय ऋषिमध्ये महायशाः सृष्ट्वा नक्षत्रवंशम् महायशा च क्रोधे न अन्यमिन्द्रम् करिष्यामि लोको वा दैवतान्यपि सक्रोधात् स्रष्टुम् समुपचक्रमे ततः परमसम्भ्रान्ताः सर्षि सङ्घाः सुरासुराः विश्वामित्रम् महात्मानमोचुः स्वानुनयम् वचः महाभाग राजा महाभागगुरुशापपरीक्षतः स्वशरीरो दिवङ्ग्यातु नार्हत्येव तपोधना तेषाम् तद्वचनं श्रुत्वा देवानाम् मुनिपुङ्गवः अब्रवीत्सु महद्वाख्यम् कौशिकः सर्वदेवताः स्वशरीरस्य भद्रम् वस्त्रिशङ्कोरस्य भूपतेः आरोहणम् प्रतिज्ञातुम् नानृतम् कर्तुमुत्सहे स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथा यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः यत्कृतानि सुराः सर्वे तदनुज्ञातुमर्हथा एवमुक्ताः सुराः सर्वे प्रत्योचुर्मुनिपुङ्गवम् एवम् भवतु भद्रन्ते तिष्ठन्त्वेतानि सर्वशः गगनेतान्यनेकानि वैश्वानरपथाद् बहिः नक्षत्राणि अवाक्षिरास्ति शङ्कुश्च तिष्ठत्वमरसन्निभः अनुयास्यन्ति चैतानि ज्योतीम् श्रिनृपसत्तमम् कृतार्थम् कीर्तिमन्तम् च स्वर्गलोकगतम् यथा विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः ऋषिमध्ये महातेजाबाढमित्येव देवताः ततो देवामहात्मानो ऋषयश्च तपोधनाः जग्मुर्यथा गतम् सर्वे यज्ञस्यान्ते नरोत्तमा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे षष्टितमः